गणेशपुराणं क्रीडाखण्डम् अध्यायं फोर्टि सेवेन् राजोवाच अवश्यं मुनिशार्दूलकरिष्ये वचनं तव करवाण्यन्यथा चेन्मे हरस्यः गृत्समद उवाच एवं तेन सर्वजनाः काशिष्टा स्ववशीकृताः त्यक्त्वा सर्वाणि कर्माणि तमेव परिसेविरे भूतं भव्यं विप्रकृष्टं भविष्यं च विवृण्वता ततो विष्णोर्बौद्धरूपी पञ्चकोशात् बहिष्ठितः आगत्य मायया मोहं जनयन् सर्वदेहिनां श्रुति स्मृतिविरुद्धं सो पाढीधर्म पृशं द्विषन् सोऽपि स्ववचनात्सर्वान्वश्वं चक्रे महाजनान् साकारभजनं सर्वं दोषयामाससादरं किमर्धम् पार्थिवी मूर्तिरर्च्यदे तैजसीरभी सर्वो जनो मूढमनाः परात्मनि हृदि स्थिते वृक्षाणां जीवतां छेदः पशूनामपि हिंसनं कुरु स्वस्य वित्तानि परस्मै यः नष्टे देहे दुभुधानि लीयन्ते पञ्चपञ्चसु स्वयमेव हि भोक्रव्यं पक्वान्नं सहृदं मुदा देहात्मा परिपूज्योऽसौ नानाभोगैर्यथा सुखं ततः सर्वे जनाः स्वं स्वं मार्गं मुक्त्वा तथाभवन् ब्राह्मणानपि सन्त्यज्यु भु भुजोद्भोगमुत्तमं तत्पत्नी कमला नाम पूरयन्ती मनोरथान् स्थिता वाराणसीवास्य स्त्रियः सर्वाव्यमोहयद बोधयामास दुष्टमार्गं दिने दिने भिद्यन्ते बुद्धयस्तेषां पुरग्रामनिवासिनां स्वदेहे भर्तृदेहेयोऽन्यस्य देहे स एव तु न भिद्यते पुमान्यद्वन्मुखनासाकरादिभिः तथात्मा नैव भिद्येद देहैरेतैश्च दुविधैः एवं प्रलोभिधा कान्ताः पुंसोऽन्यानबिभेजिरे ब्राह्मणा अग्निहोत्रेषु यत्नेषु शिथिलादराः प्रदेदाने च होमे च देवब्राह्मणपूजने पशूनां यज्ञियानां च छेदने संशयं दधुः परस्परं गृहे जन्तोर्बुभजुर्भोगमुत्तमं स्वयमेव बुभुजिरे स्वयमेव च व्रतानि च एवं च धर्मलोपो तदो बौद्धो जगामाशु दिवो दासस्य मन्दिरं पूजितः परया भक्त्या सते स्वासने शुभे तद ऊचे दिवोदासं वाक्यं वाक्यविशारदः बौद्ध उवाच शृणुराजन्हिदं वच्मि श्रुत्वा तत्कुरु सादरम् इयं वाराणसी शूलभृदा निर्मायितेजसा प्रलये पितृशूलाग्ने ध्रियदे सर्वजन्तुभिः पुण्यवद्भिरिहस्तेयं मृदौ मोक्षमभीप्सुभिः भी पापात्मनो भैरवेण क्रियन्ते बहिरेव च रक्षणं पुण्यकर्घृणां क्रियते तेन तेन च तव पुण्यं स्थितं यावत् तावदत्र स्थितो भवान् काश्यां राज्यं प्रकुर्वाण इदानीं न भवान् पापं च सम्प्रवृत्तं ते राज्ये नरककृनृप नृप उवाच सम्यगुक्ते त्वया मह्यं करिष्ये वचनं तव ज्योतिर्विदाड्डुण्ठिना च प्रोक्तं तत्सत्यमेव तद् वदमे च कश्चासि मद्धितार्धमिहागदः यदि वेतुं शक्यं तत्त्वं ते पुरुषोत्तमा क उवाच ततः स करुणाविष्ठो दर्शयामासतं नृपं निजं चतुर्भुजं रूपं शङ्कचक्रगदाधरम् समष्टिव्यष्टिरूपेण चिद्रूपं च प्रदर्शितं ततो नृपो नमस्कृत्य पुपूजपरया मुदा न ना नर्तपरया भक्त्या तद्दर्शनमहोत्सवः धन्योऽहमिति तप्राह पितृभ्यां सहितोऽनख पूर्वम् राज्यम् परित्यज्य तपस्तप्तम् मया बहु ब्रह्मणेदम् राज्यमनुत्तमम् त्वद्दर्शनाज्जन्ममृति गदे मे नात्र संशयः इदमेव परं याचे त्वमहं शरणं गदः मुनिरुवाच इत्युक्तः परमात्मा सौ प्रोक्तवान् नृपसत्तमं विश्वेश्वरप्रसादा च राजसत्तम भविता परमामुक्ति त्यक्त्वा राज्यं सुखी भव भैरवो दण्डपाणिश्च बहि कुर्यादोऽन्यथा एवमाकर्ण्य तद्वाक्यं चिन्तां परमिकां व्ययौ ध्यात्वा विचार्य तद्धेदुं बुबोध सर्वमेव सह गणेशं च बौद्धं मायाविनं हरिम् प्रणम्य शिरसा भक्त्या कोऽसीति निजगादतं सोपि बुद्ध्वा महाविष्णोर्निजं रूपं समास्थिदः चतुर्भुजं शङ्खचक्रगदा पद्मधरं विभुं पीताम्बरसमायुक्तं सर्वलोकाश्रयं परम् उवाच तं नृपपूज्य धन्योऽहम् मम पूर्वजाः यन्मोक्षदं पदयुगं पुण्यप्रभावदः देहि मे परमां मोक्तिं मुद्रा मेधां गृहाण च बलाद्दत्तं ब्रह्मणा शास्तु राज्यं शिवो निजं ततो जगा दत्तं विष्णुशिवो मुक्तिं प्रदास्यति क एवमुक्त्वा दिवो दासं महायोगेश्वरो हरिः अन्तर्हितः पुनर्यायाद् बौद्धरूपी निजाश्रमं प्रेषयामास दूतं स शिवागमनहेतवे दिवो दासस्य ज्योतिर्विदा गणेशेन त्यक्तं राज्यं नृपेण ते शीघ्रमायाहि विश्वेश्य निजां वाराणसीं पुरीं तदो राजा राजचिह्नं त्यक्त्वा ते पे परन्तपः प्रासादे परमे स्थाप्य शिवलिङ्गं सुविश्रुतं स्वनाम्नामोक्षदं पुंसाम् सकामानां तु कामदं प्रतीक्षं दर्शनं तस्य शङ्करस्यार्थदायिनः इति श्रीगणेशपुराणे क्रीडाखण्डे शोध्यायः ओ